सङ्ग्रहेन् सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो सौख्यमेष भवता समागमः स्वा प्यति तरामणीयसि या त्वदप्रथनकालिकास्ति मे तामपि शपरिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय तावके पुषिपेश्व भरे चेत् सुधामये निरत्यणे तिष्ठतः सुभगोऽस्मि कोपरः मत्समोऽस्ति जगीर्ति शोभते देव त्वदनुरागिणः परम् देवदेवद्वयामृता संहरणलब्धजन्मना तद्यथा स्थितपदार्थसंविदा मां पुरुष्वचरनार्चनोद्यतम् ज्ञायते तदनु दृश्यते ततह स्पृश्यते च परमेश्वरः स्वयं यत्र पूजन् महोत्सवः समे सर्वदास्तु भवतो ननुभावत यद्यथास्थितपदार्थदर्शनं योष्मद श्चयः यो ममे तदि तदेतराशयं भरतिशालिषु सदा विजृंभते तत्तदिल्प्रियमुखेन सन्ततं योष्मद मणो मात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते यत्र नाथ भवतः पुरे स्थितं तत्र मे पुरुषदा तवाचतुः नासधामि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वरत्वया दर्शनेन न किमस्मि पिवा पादसंवहनकर्मणाग्निवा शक्तिपादसमये चालनं प्रार्थमिशन करोषि कर्हि चेत् अद्य मां प्रतिपमानचयतः स्वप्रकाशनविधा विलम्बसे वी तत्र तत्र विषये बहिर्वे यन्तरे च परमेश्वरीयुतं त्वां जगत्रित निर्भरं सदा लोकये निजपाणि पूजितम् स्वामी सौधमभि सन्धिमात्रतो निर्वमठे रुह सर्व श्याम प्रसाद परमामृता सवा कालेरि पदल निवृतिः यत् समस्त शोभगार्थमस्तुषु शो स्पर्शमा विधिना चमकृति तां समर्पयति न ते वपुः पूजर्यलभति शालिनः स्फारयस्यखिलमात्मना स्फुर वेश्वा शशिरूपमृष यस्वयं निज भूर्णसे पूलसति भाव मण्डलम् यो विकल्पमथ मण्डलम् पश्यति श लेखे I'm a peanut! कलापमय रक्तगीतिका नित्ययोक्तवदनुपशोभितः श्यामथापि भवदचनक्रिया वेयसि परिगताशयः सदा खिलार्थ मि कर्पमद्वयं स्वं स्वरूपमखिलार्थघरम् आविषण्डहेश सर्वदा पूजर्यमभिसंस्तु